नमो नमः अस्माकम् वर्गे सर्वेषाम् स्वागतम् प्रार्थनया आरम्भम् कुर्मः वीणा भगिनी भवती आरम्भम् करोति वा प्रार्थना हरिः ओम् शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्याये सर्वविघ्नोपशान्तये शान्ताकारम् भुजवशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मेकान्तम् कमलनयनम् योगिहृद्यानगम्यम् वन्दे विष्णुम् भवयहरम् सर्वलोकैकनाथम् सरस्वति नमस्तुभ्यम् भरदे कामरूपिणि विद्यारम्भम् सिद्धिर्भवतु मे सदा हरिः ओम् श्रीकृष्णाय नमः धन्यवादाः भगिनि धन्यवादः अद्यदिने पुनः स्मारणं वयं कुर्मः तत्र सप्तककाराः भवन्तः सर्वे स्मरन्ति वा वयम् तत्र सप्तककाराः स्मरन्ति यदा अहं वदामि हा वदतु किं कुत्र गति तदस्ति किं कुत्र कति कदा कुतः कथं किमर्थम् किं कुत्र कति कदा कुतः कथं किमर्थम् इति अस्ति तत् किम् अस्ति कुत्र अस्ति कति कदा कुतः कथं किमर्थम् पश्यन्तु अथ एकनि स्क्रीन् शेर् करोमि पश्यन्तु किं कुत्र कति कदा कुतः कथं किमर्थं किं कुत्र कति कदा कुतः कथं किमर्थम् एकवारं पठनं भवेत् तस्य भारतमहोदय भवान् पठति कृपया सप्तककाराः भारतमहोदय अस्ति नास्ति सः तु प्रवेशं कृतवान् आसीत् अस्तु अस्तु राधा भगिनी पठति आम आं भगिनि सप्तककाराः किं कुत्र कति कदा कुतः कथं किमर्थम् अस्तु तत्र कुत्र इति किं वदति कुत्र विषयक एकम् एकं वाक्यं वदति वा कुत्र आ, भवत्याः गृहं कुत्र अस्ति आम् हा इत्युक्ते स्थानं दर्शयति कुत्र अस्ति हा वेर् इति वेर। किं विषयकः वाक्यं वदति वा किं भवती किम् अस्ति भवती किं खादति भवती किं पठति इत्युक्ते कर्मपदं हा किं करोति किं वदति इति हा अधुना कति विषयकः वाक्यम् हौ मेनि कति पुस्तके अस्ति आं स्यूते कति पुस्तकानि सन्ति कति पुस्तकानि सन्ति वर्षे एकस्मिन् वर्षे कति मासाः सन्ति एवं कलो कति अङ्गुल्यः भवन्ति इति कुतः किं दर्शयति भगिनी कुतः विषयकवाक्यं वदतु कुतः फ्रोम् वेर् रैट् कुतः फ्रोम् वेर् ओके भवान् कुतः कुतः आगच्छतु भवान् कुतः आगच्छति कुतः आगच्छति okay. इत्युक्ते फ्रोम् वेर् कस्मात् ग्रामे ग्रामात् आगच्छति वा कुत्र आगच्छति कुतः क्षम्यतां कुतः आगच्छति अग्रिमे कथं विषयकथम् इत्युक्ते कथम् इस् हौ आम् आम् आम. कार्यं कथं करिष्यति आं कार्यं कथं प्रचलति गीतगायनं कथम् अस्ति अस्तु भवत्याः स्वास्थ्यं कथमस्ति इति अनन्तरं किमर्थं किमर्थं विषयक भवान् किमर्थं तत्र गच्छति किमर्थं वाट् इस् अ पर्पस् भवती योगासनम किमर्थं करोति स्वास्थ्यरक्षणाय हा <laughs> भवती प्रभाते उद्यानम् उद्यानं किमर्थं गच्छति <laughs> एवं सर्व, किमर्थं फोर् वाट् पर्पस् तत्र अत्र पश्यन्तु तत्र कुत्र कति कदा कुतः कथं अस्वा, किमर्थं का हा भवतु नाम एकवारं हा जयन्तीभगिनी हा धन्यवादः भगिनी धन्यवादः जयन्तीभगिनी भवती अपि अपि तत् स्व स्वरचितानि वाक्यानि वदति वा सप्तककारान् उपयुज्य हा वदतु वाक्यरचना अपि भवितु रामः किं रामः किं वधः कृतवान् रामः किम? वधं कृतवान् सारी सारी वेणी अहं भवती किं भवती किम करोति हा भवती किं करोति में, अग्रिमे में. रामः कुत्र आसीत् सत्य रामः कुत्र आसीत् वर्गे गतिसना जनाः सन्ति योग्यम् अस्माकं वर्गः कदा भवति आम् भवती कुतः आगच्छति आम् एकनिमिषं भगिनि कथम् वर्गः कथमासीत् आं कथमासीत् सम्यक् आसीत् वा योग्यमासीत् वा योग्य कथमासीत् हा किमर्थं पुराणकथा पुराणकथा कथानां ज्ञानम् आवश्यकं हा किमर्थम् आवश्यकम् उत्तरं किम् तस्य उत्तरं किं किमर्थम् भगिनी? भगिनि ज्ञानार्थं ज्ञानार्थं सत्यम् एवं नुँ। सर्वं भवति हा एते नुँ। सर्वे नुँ। काराः अगस्ट् महोदय नूतनतया तत्र नमो नमः धन्यवादः राजयन्ति भगिनि आगस्ट् महोदय नमो नमः भारतमहोदय नमो नमः नमो नमः कथमस्ति आगस्ट् महोदय धन्यवादः अस्तु अधुना भारतमहोदय भवान् वदति वा सप्तककारान् उपयुज्य वदतु किम निं, खादति योग्यं भवान् किम खादति रामः कुत्र गच्छति योग्यं बहु सम्यक् कुत्र गच्छति अस्ति how many right pretty means how many yeah. um correct um, not i, I can't say the strength but i tried to make it in has and so so cinema is from karun kati um i i अस्तु <laughs> चिन्ता मास्तु अनन्तरं अस्तु तत् एवं कुर्मः वयम् एवं कुर्मः हा वीणा भगिनी वीणाभगिनी भवती प्रश्ननिर्माणं करोतु अगस्ट् महोदय प्रश्नान् उत्तरं ददाति हा, हा प्रश्ननिर्माणं किं कुत्र कति कदा कुतः कथं किमर्थम् तेन किं भवेत् अश् अस्मा अश, अस्माकं मनसि अश् स्पष्टतया अर्थस्य विषये ज्ञानमपि भवेत् अनन्तरं तत् सम्भाषणस्य अपि तत्र सम्भाषणकार्यमपि तत्र प्रचलति अतः हा प्रश्ननिर्माणं करोतु आगस्ट् महोदय प्रश्नान् उत्तरं ददाति हा वदतु अस्तु भगिनि हा अस्तु भगिनि बट् वेर् इस् लिस्ट् आफ़् तत् न स्मरति वा अस्तु पश्यन्तु किं कुत्र कति कदा कुतः कथं किमर्थं भवतः किम करोति किं करोति भवान् किं करोति अवश्यमहोदय कृपया उत्तरं ददातु एकनिमिषम् अहं सम्भाषणम् करोमि भवान् किम् करोति इति प्रश्नः उत्तरम् किमस्ति अहं सम्भाषणं करोमि अहं संस्कृतसम्भाषणं करोमि एवं खलु भवान् किं करोति अहं संस्कृतसम्भाषणं करोमि द्वितीय द्वितीयः प्रश्नः वीणा भगिनी कुत्र हा भवान कुत्र निवसति गरे mm. ब्रजिव ब्रा, mm. निवसामि बहु सम्यक् तत्र सप्तम्यन्तपदं बहु सम्यक् नगरे देशे सम्यक् अग्रिमे कति वीणा भगिनि साल्वतूर् नगरे कति दूरम् अस्ति क्षम्यताम् सम्यक् न वा सम्यक् न श्रूयते सम्यक् न श्रूयते यतोपि यतोपि सम्यक् वा श्रूयते श्रूयते श्रूयते साल्बतो नगरः कुतः वा भगिनि भवती किं प्रश्नः कः किं किं प्रष्टुम् इच्छति भवती हौ मच् हौ मच् हौ मच् इत्युक्ते हा तत् कति इति खलु कति दूरमस्ति दूरमस्ति तत् कति इति इत्युक्ते तत्र स्पेसिफिकेशन् तत् भवेत् इति इत्युक्ते uh -huh. नम्बर्स् इति भवति भवती अहं प्रष्टुं शक्नोति भवतः समीपे कति पुस्तकानि सन्ति ऐ मेण्ट् इति तत् कियत् कियत् दूरम् अस्ति इति कियत् इति तत् भिन्नप्रकारेण तत् कियत् कियत् अनन्तरं सः दूरे नास्ति समीपे नास्ति इति आगच्छति एवं वक्तुं शक्नुमः कति कति पुस्तकानि वा कति लेखकानि मम समीपे कति पुस्तकानि सन्ति उत्तरम् अवश्यं महोदय मम समीपे मम समीपे दश दशपुस्तकानि सन्ति उत्तमं दशपुस्तकानि सन्ति सम्यक् अग्रिमे कदा कदा इति अस्माभिः भगिनि Um, uh, भवान् uh, uh, कदा उत्तिष्ठति hmm. uh -huh. सूर्योदये कदा उत्तिष्ठति हा uh -huh. um, uh, पञ्चवदनं पञ्चवदनं hmm. तिष्ठामि सार्ध ah. सार्धपञ्च सार्धपञ्चवदनं वादनं वा हा न किं भवति वादनम् इति न कदा समय हा समय दर्शयति तत्र पश्यन्तु अहमेकवारम् उक्तवती आसम् अहं तत् समय अधिकरणरूपेण आगच्छति हा एतस्मिन् समये सार्धपञ्चवादने अस्माकं कक्षा प्रचलति समय इति समयरूपेण अधिकरणम्, देशकालस्थितिः तद्देशकाल अस्माकं कृते अधिकरणरूपेण आगच्छति आधारोऽधिकरणम् तत् अवष्टवदे उत्तरम् एवं भवेत् अहं सार्धपञ्चवादने उत्तिष्ठामि अहं सूर्योदनात् प्राक् उत्तिष्ठामि अतः सूर्योदय सूर्योदयात् प्राक् उत्तिष्ठा परन्तु अत्र कति कति कति इति प्रश्नः कति uh, समितं कदा इति प्रश्नः तत् अहं सार्ध सा पञ्चवादने सप्तमी उत्तिष्ठामि इति उत्तरमि hmm? uh, अनन्तरं वेणा भगिनी कुतः फ्रों वेर् इति uh, प्रश्नः कुतः उपयुज्य कुतः कुतः फ्रों वेर् भवान् कुतः आगच्छति अहं सबदूर्नगरात् आगच्छामि अत्र uh, you... हा वदतु Uh, sorry because i i misunderstood she she was scanned from where i i am where where i was born And yes correct part uh, ah yeah, yeah so uh, i ha aduna kim moti august mode yada aduna bhavan yadi gruhe asti तत्र आन्लैन् माध्यमेन वयम् अस्माकं कक्षा प्रचलन्ती अस्ति अतः तत् आन्लैन् माध्यमे परन्तु यदा भवान् कार्यालयतः इफ् यु आर् कमिङ्ग् डिरेक्टलि फ्रोम् द ओफीस् एण्ड् देन् गेटिङ्ग् कनेक्टेड् ओवर् हियर् देन् अहं कार्यालयतः आगमिष्यामि आगमिष्यामि ओके सो जस्ट् नौ ऐ हाव् कम् फ्रोम् मै आफीस् एण्ड् देन् ऐ गोट् कनेक्टेड् टु द क्लास् इट् इस् एषः भावः अहं कार्यालयतः आगमिष्यामि नो चेत् अहम् उद्यानतः आगमिष्यामि उद्यानतः उद्यानतः आगमिष्यामि देट् इस् फ्रोम् वेर् जस्नौ वेर् आर् यू कमिङ्ग् फ्रोम् वेर् आर् यू कमिङ्ग् जस्नौ इति भावम् अस्तु सम्यक् अस्ति अधुना भगिनी कथम् इस् लेफ्ट् औट् कथं कथं हा साल्वर् um, um, uh, नगरे uh, um, वायुमानः कथम् अस्ति किमर्थं mm. सलवदूर् uh, नगरे वेदर, वेदर, वायुमानः ah, वे, वे, वेदर कथम् अस्ति उष्णमस्ति वा शीतमस्ति वायु द वेदर् कण्डिशन् वेदर् कण्डिशन् द वेदर् अधुना वायुः वायु वायुः र्ष पार्श्वमस्ति अस्तु एवम् अस्ति वा तत्र ओहो योग्यो मधुरनगरे सूर्य सूर्यम् अस्ति i i i i can't say that. the most most of the time it, it's the sun, sunny, uh, sunny hmm. it is is the sony the uh, sony city mo itupisani tatra uh, uh, prakashah asti ha huh? surya prakashah api tatra asti iti sahabaptum ichati astu bhagavane dhanyavadah astu one more is left kimartham is left antimam yeah, <laughs> kimartham ha <Huh. laughs> किमर्थं भवान् किमर्थं संस्कृतं पाठय पाठय पाठयसि किमर्थं संस्कृतं पठति स्नेहामि aham ambudhay dantam snehami aham ah sanskritam imad uh, avartam studi pat patthayami अहं संस्कृतं पठयामि योग्यं बराक् टुस्टेण्ड् वैदिक अहं वैदिकपरम्पराज्ञानार्थं संस्कृतं पठामि ज्ञानार्थं पठामि अहं ज्ञातुमिच्छामि मम मनसि जिज्ञासा अस्ति अतः अहं पठामि किमर्थं ज्ञानार्थं पठामि बहु सम्यक् बहु सम्यक् महोदय अस्तु अधुना सर्वेषां मनसि धन्यवादः सर्वेषां मनसि सप्तककाराः एवं सर्वं कथमस्ति अधुना वयं पुस्तकं प्रति गच्छामः अस्माकं विषयः अस्ति सप्तमीविभक्ति तत्र सप्तमी विभक्तिः कदा कदा प्रयुञ्जते तत् सर्वं वयं दृष्टवन्तः अधुना तत्र कदा इति सप्तककारेषु एकः ककारः कदा तत् अस्माकम् अद्यदिनस्य विषयः अस्ति कदा यथा उक्तवती कदा अपि कदा प्रश्नस्य उत्तरम् अपि सप्तम्यन्तम् पदम् एव भवति किमर्थं तत् समय समय समयः समय स्थलम् तत् अधिकरणरूपेण पुरतः आगच्छति कस्मिन् समये कस्मिन् स्थाने अतः तत् गच्छामः तत्र कुतः कदा तत् एकनिमिषं हा कृष्णः पश्यन्तु अत्र स्क्रीन् दृश्यते वा न न दृश्यते न न भगिनी न दृश्यते एकनिमिषम् एकनिमिषम् एकनिमिषं मम दोषः जातः कदा तत् समयस्य अधिकरणं अतः उत्तरमस्ति सप्तम्यन्तं पदम् एव कदा अधुना दृश्यते आम् दृश्यते भगिनी दृश्यते हा पश्यन्तु अस्माकं गीतासमानं पुस्तकं कृष्णः कदा उत्तिष्ठति उत्तिष्ठति उत्तिष्ठति इत्युक्ते इत्युक्ते किम् उत्तिष्ठति इत्युक्ते गेटिङ्ग् अवेट् इति तत्र चित्रं पश्यन्तु सर्वे सूर्योदयस्य चित्रमस्ति तत्र प्रश्नः अस्ति सूर्यः कदा उदेति सूर्यः प्रातः उदेति okay. प्रातः तत् यदा अस्ति चेत् तत्र विभक्तिप्रत्ययस्य कोऽपि प्रसक्तिः नास्ति परन्तु काल इति वदामः चेत् सूर्य प्रात काले उदेति तूर्य कदा अस्तमेटी सूर्य साय अस्त सूर्य साय काले अति धा क अन्यकोऽपि किं चिन्तयति उदेति एति धातु एत पश्यन्तु धातु जयन्ति भगिनी तत्र भगवद्गीतायां बहुत्र तत्र दृश्यते मूलतः धातु अस्ति इण अर्थः अस्ति गतौ गत्यर्थकधातु इति व्याकरण अंश किञ्चित् वदामि सन्दर्भेण अत्र इण रूपस्य इ इति अवशिष्यते अत्र रूपं कथं भवति भगिनी तत सर्वेषां वदानि तत् इतः अन्ति तत्र इ योग यदा भवति चेत् तत एति इति रूपम् सूर्यः कदा अस्तम् एति इ योग टी तत्र प्रथमपुरुष एकवचनान्तरूपं वदति गच्छति पश्यति पठति इ योग यदा भवति चेत् तत्र टी कारणात् तत्र गुणः भवति इ एतस्य गुणभूत्वा भवति hmm. ए इति भवति रूपाणि सन्ति एतः यन्ति इति अस्ति ए अधुना तस्य योजना भवेत् तेन किं भवति तकारस्य दकार भूत्वा लिखाम्यत्र स्पष्टता भवेत् रूपः अस्ति एति तत् उदेति कथमागच्छति उत् इति उपसर्ग तेन किं भवति उत् आगच्छति चेत् तकारस्य दकार हा सामान्यतया वदा वयं वदामः वन् का इति वदामः इत्युक्ते प्रथमवर्ण तवर्गस्य प्रथमवर्णस्त छ्व इति तेन किं भवति तकारस्य दकार उद्योग एति अधुना किं भवति दकार ए भवति ऊदेति इत्युक्ते ईतु अतीव महत्त्वपूर्णधातुः एति इतः यान्ति एवं सर्वम् एतानि सर्वानी रूपाणि सन्ति तत इण् गतो इ इति रूपम् अवशिष्यते अस्तु ह किञ्चित् व्याकरण अंशस्य विषये परन्तु यदा उदेति वा एति शब्दस्य कृते इ इति धातु अस्ति तत् मनसि किञ्चित् स्था स्थापयन्तु सर्वे अस्तु सूर्यः कदा उदेति सूर्यः प्रातः उदेति सूर्य कदा अस्तम् एति सूर्यसायम् अस्तम् एति अधुना अस्ति सम्भाषणं द्वयोः मध्ये कृष्णः अस्ति श्रीकृष्णभगवान् श्रीकृष्णः अस्ति तस्य माता अम्बा इति द्वयोः मध्ये श्रीकृष्णस्य अम्बाका अतः परन्तु अत्र सम्भाषणबालः माता द्वयोः मध्ये अस्ति बालः जिज्ञासु अस्ति बालकः जिज्ञासु अस्ति बालकः श्रीकृष्णविषये प्रश्नान् पृच्छति हा तत् बालकः पृच्छति माता उत्तरं ददाति तत् सम्भाषणम् अस्ति अधुना तत् राधाभगिनी माता सम्भाषणमाताविषयकसम्भाषणं भवति पठतु भारतमहोदय बाल इति भवति सम्भाषणं पठन्तु अस्तु अम्बः अम्ब कृष्णः कदा उत्तिष्ठति वत्स कृष्णः कूषकाले उत्तिष्ठति अत्र पश्यन्तु वत्स कृष्णः उषः काले तत्र विसर्गः अस्ति उषः कालम् उष् अत्र एकः इतोपि एकः व्याकरण अंश उपपद्म्यानाम् इत्युक्ते तत्र उष तत् क इति उषः काले इति न क विषय उषः इति भवति अतः तत्र राधाभगिनी तत्र वत्स इति अस्ति वत्स इत्युक्ते किम् Uh, परन्तु तत्र विष्णोः भगवान् विष्णो नाम स्त्रीवत्स इति अस्ति खलु श्रीवत्स इत्युक्ते सः हि इस् वेरि कैण्ड् हार्टेड् अण्ड् वेरि मचेक्षनेट् फोर् हि डिबोटिस् अतः श्रीवत्स oh, okay. में पठतु स्नाति इत्युक्ते uh, अत्र अत्र अपि पश्यन्तु स्नाधातु स्ना योगति स्नाति प्रथमपुरुष एकवचनान्तरूपं लट्लकार अग्रिमे अम्ब कृष्णः कदा धेनु चारयति वत्स प्रातराशानन्तर धेनुः चारयति प्रातराशानन्तरं प्रातराश इत्युक्ते प्रात अर्लि मार्निङ्ग् प्रातराशातराशः आफ्टर् ब्रेक्फास्ट् ब्रेक्फास्ट् तस्मिन् समये प्रातराशः इति किं भवितुमर्हति प्रातराशः अश् अस्मिन् तत्र अत्र खलु बेनि अष्टातु प्रातरा आसन न न तत् अहम् अहं मन्ये तत्र प्रातराशः तस्मिन् समये चीज् बटर् एवं सर्वम् आसीत् वा न काञ्जि काञ्जि प्रातराशः किं भवितुमर्हति अस्माकं चिन्तनं काञ्जी कञ्चिस् ओवर्नैट् रैस् ओदनं दधि सत्यं ओदनं दुग्धम् नवनीतं अपि एतत् सर्वं प्रातराशे अन्तर्भूताः एव hmm. ओके अग्रिमे अग्रिमे पठतु तत्र अस्ति भुङ्क्ते भुङ्क्ते अत्र पश्यन्तु आत्मने परिप्रत्यय ते इते अन्ते ते इथे द्वे ते प्रथमपुरुषे एकवचनं हो ुङ्क्ते इति रूपं भुज भुङ्क्ते सः कदा भुङ्क्ते भुज इस् टु ईट् okay. बालः पृच्छति सः कदा भुङ्क्ते माता किं वदति पठतु सः धेनु धेनुचरणानन्तरं भुङ्क्ते चारणानन्तरं चारणानन्तरम् आफ्टर् दौज् आव सत्यं पश्यन्तु हा वदतु कृष्णः कदा विश्राम्यति हा एकनिमिषम् तस्मात् प्राक् तत्र पश्यन्तु धेनुचारणं धेनुचारणम् इत्युक्ते तु फीड् द कौज़् इति hmm. अत्र भूतदयाः अंशः अस्ति स्वयम् hmm. एव भोजनं करोमि इति भावः नास्ति hmm. स्वस्य कृते अनम अहमेक उतवती आसम खु तथमपुष मध्यमुष उत्तमपुष यदा अहम अथम स्थान ददा तदाव अत तूतदया अंश अचारण प्रथम भवे अनम सह भोजन कौती अस् अग्रिमे पटत सः अपराग्ने वने एव विश्राम्यति अधुना अपराह्ने इति शब्दः विश्राम्यति विश्रामं करोति सामपरिहारार्थं विश्रामम् आवश्यकम् अपराह्ने इत्युक्ते किम् न जानामि अहं न जानामि अत्र लञ्च् आफ्टर् लञ्च् पश्यतु माध्याह्ने माध्याह्नः अह्न इत्युक्ते डे hmm. तस्य मध्य मध्यकालः माध्याह्नः hmm. हा मध्याह्नः मध्याह्नः अनन्तरम् अपराह्ण मध्याह्ने इत्युक्ते विकेन्सि नून् इस् अपराह्ण इस् आफ्टर् नून् अपराह्न आफ्टर् देट् मध्याह्नपीरिड् अपराह्णे वने एव विश्राम्यते तत्र एव वने एव यमुनानदी तत्र आसीत् खलु यमुनानदीतटे अपराह्णे एव सः विश्राम्यति अस्तु अग्रिमे अम्ब सः कदा गृहं आगच्छति सायम् आगच्छति काले वा सायम् आगच्छति हा अत्र अम्ब अनन्तरं पर्टिक्युलर्ली एक्स्क्लेमिटरी तत् किं सूचयति अम्ब तत् किं सूचयति सम्बोधनं सम्बोधनं हे अम्ब इति अस्तु अग्रिमे अम्ब अहं कृष्णस्य गृहं गच्छामि अधुना बालः वदति अहं कृष्णस्य गृहं गच्छामि कृष्णगृहं यत्र वसुदेव देवकीसुत परन्तु पालनं तस्य पालनं केन कृतं नन्दमहाराज तत्र <laughs> तत्र गच्छामि इति बालः वदति माता किं वदति पठतु अद्य श्वः गच्छ इत्युक्ते हाँ. अम्ब कदा श्वः भविष्यति हा अधुना पश्यन्तु बालः बालकः अस्ति तस्य मनसि विविधाः प्रश्नाः तत् स्वः कदा भविष्यति इति अधुना माता वदति किं वदति इदानीं निद्रां कुरु ततः जागृहि जागरणानन्तरं श्वः भविष्यति सः तस्य आकलनार्थं बालस्य आकलनार्थं माता किं वदति इदानीं निद्रां कुरु कुरु अज्ञार्थक् क्रुधातोः अज्ञार्थकरूपं लोप्लकार निद्रां कुरु ततःगृहि इत्युक्ते किं भगिनी ततः जागृहि uh, uh, ततः देट् इस् जागृहि इत्युक्ते तत्र अगेन् तत्र right. लोट्लकार जागृधातु mm -hmm. mm -hmm. मध्यमपुरुषे एकवचनं कुरु अपि मध्यमपुरुषे एकवचनान्तरूपं ततः जागृहि mm -hmm. जागरणानन्तरं श्वः भविष्यति mm -hmm. तस्य आकलनार्थं माता वदति अधुना निद्रां करोतु अनन्तरं जागृहि अनन्तरं श्वः भविष्यति यदा द्वितीये द्वितीये प्रातःकाले भवान् उत्तिष्ठति तदा तत् श्वः श्वः एतस्य आरम्भं भविष्यति इति mm. हा बालः किं वदति इदा, मेव, mm. मे, मेव श्वः भवतु mm. अत्र बालस्य मनसि किम् आगच्छति यदा अहं जागर्मि तदा एव श्वः भविष्यति त अधुना एव भवेत् इति तस्य काल काला काल कालस्य काल यापनं न इच्छति सः इदानीमेव जागर्मि इदानीमेव श्वः भवतु नाम अहं कृष्णस्य गृहं गन्तुम् इच्छामि अधुना माता किं वदति इदानीम् इदानीमेव अद्य अद्य एव ह्यः ह्यः एव श्वः श्वः एव इत्युक्ते किम् इत्युक्ते इदानीं नौ इट्स् नौ अद्य टुडे इस् टुडे ह्यः यस्टडे वास् यस्टडे अण्ड् श्वः टुमोरो इस् टुमोरो यदा बालक बाल बालकस्य मनसि आगच्छति इदानीम् एव श्वः भवेत् परन्तु mm. तत् न शक्यते कालचक्रमस्ति इदानीम् इदानीमेव अद्य अद्य यः यः यस् टुडे स्वः स्वः टुमोरो तथैव अधुना बालः किं वदति तर्हि इदानीं शीघ्रं निन्द्रां करोमि अधुना निद्रां करोमि इदानीं निद्रां करोमि शीघ्रं निन्द्रा निद्रां करो अस्तु hmm. इत्युक्ते कथा तत् साक्षात् समयः वा साक्षात् स्थानं दर्शयति अस्तु एवं सर्वम् अधुना अग्रिमे पृष्ठे जयन्तीभगिनी आरम्भं करोति वा अग्रिमे पृष्ठे कदा इति प्रयोगद्वारा यतोदाहरणम् प्रश्ननिर्माणम् कुरुत उदाहरणम् दीपावली hmm. कार्तिक अमावास्याम् भवति कार्तिक अमावास्यायाम् hmm. भवति दीपावली hmm. कदा भवति दीपावली कार्तिक अमावास्यायाम् भवति सङ्क्रान्ति hmm. सूर्यस्य मकरराशिप्रवेशदिने भवति सङ्क्रान्ति कदा भवति प्रश्नम् आम् कदा भवति सूर्यस्य मकरराशिप्रवेशदिने सप्त यदा सूर्यस्य मकरराशिं प्रवेशं भवति तदा एव सङ्क्रान्ति इति समयस्य आरब्धम् विजयदशमी महा महानवम्याः अनन्तरदिने आश्व आश्व आश्वयुजयुज्शुक्ल आज्व आज्वयुज्शुक्लयुज शुक्लदशम्याम् भवति विजयदशमी कदा भवति विजयदशमी महा महानवम्याः अनन्तरदिने आश्व आश्वयुजशु आश्वयुज शुक्ल दशम्याम् भवति तत्र दशेरा इति वयं वदामः खलु अग्रिम गुरुपूजा गुरुभूज कुरुभूजा आषाढपूर्णिमायां पूर्णिमायां भवति सारि पूर्णिमायां भवति गुरुपूजा कदा भवति गुरुपूजा आषाढपूर्णिमायां भवति ुगाणिमायां युगादिः चैत्रशुक्लप्रतिपदायां भवति युगादि कदा भवति युगादि चैत्रशुक्लप्रतिपदायां भवति तदे तदपि सप्तमी स्त्रीलिङ्गपदवेकवचनं खलु युगस्य आरम्भं युगादि कदा चै ैद्रशुक्लप्रतिपदपदा पदायां गणेशोत्सवः गणेशोत्सवः पातृपदशुक्लचतुर्थ्यां भवति गणे गणेशोत्सवः कदा भवति गणेश गणेशोत्सवः पातृपदं भातृपदम् शुक्लचतुर्थ्यां भवति चतुर्थी अपि सप्तमी एकवचनम् ऐ मीन् सप्तमी एकवचनं चतुर् चतुर्थ्याम् इति शिवरात्रि शिवरात्रिमहोत्सवः माघ माघकृष्णचतुर्थ चतुर्दश्यां चतुर्दश्यां भवति शिवरात्रिः शिवरात्रिमहोत्सवः कदा भवति शिवरात्रिमहोत्सवः माघकृष्णचतुर्दश चतुर्दश्यां भवति श्रीकृष्णजन्म श्रीकृष्णजयन्ती श्रावणकृष्णाष्टम्यां भवति श्रीकृष्णजयन्ती कदा भवति श्रीकृष्णजयन्ती श्रावणकृष्णाष्टम्यां भवति तत्रापि सप्तमी एकवचनं वेणी चतुर्थ चतुर्दशम् अपि सप्तमी एकवचनं भवति योग्यं धन्यवादः धन्यवादः अत्र सर्वेषु स्थलेषु सप्तमी इति रूपम् अत्र वयं ज्ञातुं शक्नुमः गुरुपूर्णिमा आषाढपूर्णिमा युगस्य आरम्भे चैत्रशुक्लप्रतिपदा दिन हा दिनविशेषः गणेशोत्सवभाद्रपदशुक्लचतुर्थी माघकृष्णचतुर्दशी भवति शिवरात्रि श्रीकृष्णजन्म श्रीकृष्णजन्म श्रावणकृष्ण अष्टमी एवं सर्वं परन्तु कदा इति प्रश्ने सति अस्माकम् उत्तरं सप्तम्यन्तं पदं तत्र सप्तम्यन्तं पदं प्रयुञ्जामः तत्र उत्तरं भवति इति योग्य धन्यवादः भगिनी धन्यवाद अग्रिमे हा तत् आगस्ट् महोदये भवान् पठति वा श्रीरामजन्म तत् आरभ्य त्रि श्रीरामजन्म ततः श्रीरामजन्म चैत्र भवति प्रश्नः श्रीराम जान् जान्म कदा भवति उत्तमं कदा भवति चैत्रशुक्लनवम्यां सप्तम्यन्तपदम् उत्तमम् अग्रिमे महाभारतयुद्धसमाप्तिः अमावास्यायां भवति महाभारतयुद्ध समाप्तिः कदा भवति mm. अमावास्यायां भवति इति कृष्णस्य गीतोपदेशः hmm. गीता गीता जयन्ती hmm. मार्गशीर्षशुक्लैकादश्यां भवति mm. कृष्णस्य गीतोपदेशः कदा भवति कदा भवति मार्गशीर्षशुक्ल एकादशी इति दिनः तत्र एकस्मिन् दिने मार्गशीर्षशुक्ल एकादश्याम् इति दिने गीतोपदेशः भगवता कृतः इति सम्यक् अग्रिमे मनुष्याणां मनुष्याणां क्रीडासक्तिः बाल्ये भवति मनुष्याणां क्रीडाशक्तिः कदा भवति बाल्य बाल्यकाले तत्र क्रीडनम् इति अधिकतया प्रकर्षेण बालकाः कुर्वन्ति अतः क्रीडायाः आसक्ति क्रीडासक्तिः बाल्ये भवति इति दत्तमस्ति अग्रिमम् नराणां चिन्ता वृद्ध वृद्धत्वद्यां भवति नराणां चिन्ता कदा hmm. वृद्धत्वदशायां वृद्धत्वदशायां दशा इत्युक्ते स्थितिः वृद्धापकाले वा तत्र ओल्डेश इति वृद्धा वृद्धावस्थायां सप्तमी वृद्ध वृद्धत्वदशायां भवति नराणां चिन्ता चिन्तावर्धनं भवति इति लिखितमस्ति अग्रिमे कृष्णा तृष्णायाः hmm. शान्तिः कदापि न भवति hmm. तृष्णायाः शान्तिः hmm. hmm. कदा भवति योग्यं कदा भवति उत्तरमस्ति कदापि न भवति तदपि न मुञ्चति आशापिण्डम् तृष्णाण्डिङ्ग् कदापि न भवति तस्य शान्तिः तस्य दमनम् कदापि न भवति इति लिखितमस्ति अस्तु उत्तमम् अस्ति महोदय धन्यवादः अधुना अस्माकम् धन्यवादः कथायाः समयः तत्र गच्छामः कथा, कथा अद्य दिनस्य कथा का पुरतः अस्ति तत्र अद्यदिनस्य कथा आरम्भं करोति अस्तु राधा राधा भगिनी आरम्भं करोति वा सूक्ष्मांशग्रहणपरिणतिः सूक्ष्मांश सूक्ष्म अंशग्रहणपरिणतिः परिणतिः तत्र अधुना अर्थस्य विषये किमपि न वदामि वयं कथां पठ पठमतः पठिष्यामः अनन्तरम् अर्थस्पष्टता भवेत् एव हा सूक्ष्म अंशग्रहणपरिणतिः इत्युक्ते इन् जनरल् तथा मैन्यूट्लि आब्सर्वेशन् ओर् मैन्यूट्लि ग्रहणम् इत्युक्ते अण्डर्स्टाण्डिङ्ग् okay. मैन्यूट् डीटेल् अण्डर्स्टाण्डिङ्ग् okay. तस्य okay. okay. परिणामं किं भवति इति अंश किञ्चित् हा पठतु भगिनी यदा आङ्ग्लानां शासनं प्रचलति स्म तदा प्रवृत् प्रवृता घटना एषा मेल नामकम् एकनिमिषम् एकनिमिषम् एकनिमिषं क्षम्यताम् एकनिमिषम् पडेना <laughs> <laughs> अहं पश्यतः। इयं अहं उच्यते। अत्र वदतु। अत्र वदतु। इयं अहं उच्यते। इह तत्र। इह तत्र। क्षम्यताम् अधुना पठतु कृपया क्षम्यताम् आम् भारते आ, आ, भारते यदा आङ्ग् आंग, शासनं शासनम् प्रचलति स्म तदा प्रभृता घटना एषा बाम्बे मेल् नामकम् रेलयानम् गच्छत् आसीत् प्रथमश्रेणिके प्रकोष्ठे बहवः आङ्ग्लाः उपविष्टा आसन् कश्चन वेशधारी अपि उपविश् उपविष्टः तत्र तम् मूर्खम् अशिक्षितम् च मन्वानाः आङ्ग्लाः बहुधा उपहासवचनानि वदन्... वदन्तः आसन् सः भारतीयवेषधारी सर्वश्रुत्वा अपि तूष्णीम् उपविष्टा उपविष्टवान् आसीत् स्वशब्दैः वदति वा किम् अभवत् अत्र आं भारतदेशे भारतदेशे आङ्ग्लकालस्य शासनस्य समयः अस्ति तत् घटना तत, तत्र तत् तत, तत, तत, तत, तत, समयस्य आसीत् बोम्बे मेल् नामक एक रेलयानमस्ति mm. तत्र तत, प्रथमक्षणिके दलस् फस्ट् क्लास् प्रकोष्ठे mm. बहवः आङ्ग्लजनाः उपविष्ट उपविष्टम् उपविष्टाः अस्ति तत्र कश्चन भारष भारतीयवेषधारी वेरिङ्ग् इण्डियन् क्रोत्स् अपि उपविष्टा अस्ति द जनाः भारतीयवेषधारी मूर्खमस्ति अशिक्षित अस्ति मन्वानः आङ्ग्लः इत्युक्ते देवेर् अण्डर् दिस् इम्प्रेशन् सः मूर्खः एव उपहासवचनानि वदन्तः आगच्छन्तः उपहासवचनानि हा आमाम् आम् तथैव सः सः भारतीयवेषधारी सर्व श्रुत्वा अपि किमपि न वदति तत्र तत्र उपविष्टः अस्ति आम् सर्वं श्रुत्वा तुष्टि इत्युक्ते शान्ततया शान्तभावनया तत्र तत्र सः प्रत्युत्तरं न ददाति सर्वं शृणोति परन्तु प्रत्युत्तरं न ददाति ूष्णीम् एव उपष्ट उपविष्टवान् आसीत् इति योग्यम् अधुना अग्रिमे अग्रिमे वीणामगिनी अल् अग्रिमे पठतु अल्प अल्पे एव काले अल्पे एव काले वेशधारी सः सो गम सोद्वेगम् उपाय उपायसूचिकाम् सारि अपायसूचिकां शृङ्खलाम् सः आकर्षत् तस्मात् रेल्यानम् स्थगितम् अल्पे एव काले सः भारतीयवेषधारी प्रोद्वेगम् उत्थितः सः उद्वेग उद्वेगितः अभवन् योग्यम् उद्वेगपूर्णवर्तनं अनन्तरं कुपितवान् कुपितः भवितः अतः आमाम् उद्वेग इत्युक्ते तस्य चञ्चलता डिस्टर्बेन्स् इति सोद्वेगम् इत्युक्ते सः उद्वेग उद्वेगेन सह सः उत्थितवान् अनन्तरं सः किं कृतवान् अपा अपायसूचिकां शृङ्खलां सः आकर्षत् सः अपायसूचिकां आकर्षयत् हि पुल् द एमर्जेन्सि ब्रेक्स् आन् शृङ्खलाम् इत्युक्ते चेन् चैन् हा चैन् अस्तु भगिनि हा सो हि जस्ट् देट् आकर्षत् तस्मात् रेलयानं स्थगितम् अग्रिमेपिनस्थः स्थिटिकापरी परीक्षकः तां कोष्ठिकाम् आगत्य समर् सदर्पम् अपृच्छत् शृङ्खला केन आकृष्टा आकृष्ट यानस्थः चीटिकापरीक्षकः अह द टिकेट् चेक् बहु सम्यक् बहु सम्यक् टिचि सम्यक् चि चीटिकापरीक्षक तत्र आगम्य सदर्पम् दर्पेण अपृच्छत् ah, mm -hmm. mm -hmm, आ सम्यक् दर्पेण सह सदर्पम् अरुबन् इति शृङ्खला केन आकृष्टा शृङ्खला mm -hmm. केन हू हू पुल्दचेन् इतर्थं तदा भा, अन्तिमं भारतीय भारतीयवेषधारी शान्ततया अवदत् ah. <laughs> Maya Eva, iti. Uh, uh, uh, मया, iti. आ, मया एव इति भारतीयवेषधारी शान्ततया अवदत् मया एव इति मया एव शृङ्खला केन आकृष्टा मया एव शृङ्खला आकृष्टा तदस्ति कर्मणि प्रयोगः अस्तु अस्तु भगिनि मया कृष्टान्लिन्लि उत्तममस्ति भगिनि उत्तमं धन्यवादः धन्यवादः धन्य धन्यवाद अग्रिमे जयन्ती भगिनी किमर्थं तत् आरम्भं करोति वा किमर्थं कोपेन अपृच्छत् चीटिकापरीक्षकः चीटिकापरीक्षः कोपेन पृच्छति किमर्थं कृतवान् इति यान यानस्थचक्रस्य शब्दे कापि विलक्षणता अनुभूयते सः hmm. वदति चक्रस्य, शब्दे कापि विलक्षनता अनुभूयते सः वदति hmm. चक्रस्य किमपि शब्दम् उत्पन्नः इति वदति खलु बेनि hmm. hmm. चक्रस्य uh, hmm. विशिष्टप्रकारक ध्वनिः तत् चलति खलु hmm. चक्रस्य यदा रेलयानं रेलयानं धावति वा चलति तदा चक्रध्वनि विशिष्टप्रकारकः ध्वनिः अस्ति परन्तु सः वदति तस्य कापि विलक्षणता किञ्चित् विविध वैविध्यं दृश्यते विलक्षणता तत्र सामान्यता सामान्यरूपेण यः ध्वनिः आगच्छति तस्मिन् कुत्रचित् दोषः वर्तते इति भास् इति विलक्षणता अनुभूयते भासते धूरे एव यानपट्टिका भग्नाः भग्ना इत, इति भावः मयि आगतः धूरे बहु दूरतः एव यानपट्टिका यानस्य रैल्यानस्य पटिका Uh, i mean mm. that um, um, joint portion again um, i mean yatra prachakra ke gay portion satya bagna iti bavaha bagna something wrong something had uh, not good i mean uh, happened badly am um. गया मीन भग्ना ऐ मीन् ब्रोकन ऐ मीन् ब्रोकन् इति भावः आगतः चिन्तनं भवति अतः अपायनिवारणाय मया एवं कृतम् अतः अहम् अपाय किमपि अपायं न भविष्यत् इति कारणेन मया एतत् कृतम् इति सः भारतीयवेषधारी अवदत् तत्र ध्वनौ यानस्य चक्रस्य ध्वनौ काचित् तत्र असामान्यता विलक्षणता अहम् अनुभवामि अतः तत्र किमपि अपायं भवितुम् अर्हति तस्य निवारणार्थम् एव अहं किं मया एव आकुष्टा मया एव शृङ्खला आकृष्टा अहम् एव शृङ्खलाम् आकृष्टवान् इति सः वदति अस्तु अग्रिमे अपि पठतु ततः अतः सर्वे यानात् अवतीर्य पटिकायाः परिशीलनं कृतवन्तः ततः परम् सर्वे यानात् बहिः आगतवन्तः पट्टिकायां mm. परीक्षणम् अपि कृतवन्तः mm. तेन भारतीयवेषधारिणा यत् उक्तम् mm. आसीत् तत् सत्यमेव यत् भारतीयवेषधारी उक्तवान् तत् सत्यमेव तावदेव अभवत् इति mm. सर्वे जानान् जानन्ति यानं यत्र स्थगितं तत् स्थगितं ततः अन आन, अनतिदूरे एव पटिकाया भङ्गः जातः आसीत् यानं यत्र स्थगितं यत्र यानं स्थगितं स्थगिता स्थगितः ततः अनतिदूरे बहु दूरे एव पटिकाया भङ्गः अभवत् इति जानान्ति सर्वे यदि यदि यदि एषः यानं स्थगितवान् न स्यात् तर्हि शता शताधिकानां मरणम् अभविष्यत् भविष्यत् प्रायः इति चिन्तय चिन्तयतां चिन्तयतां प्रान् प्रयाणिकानां हृदयं हृदय हृदयम् असकृत् अकृत् अकम्पत अकम्पत सर्वे सर्वे यात्रि यात्रिका यात्रिकाः चिन्तयन्ति यदा भारतीयवेषधारी रैल्यानं न स्थगितवान् सर्वे शत अधिकं ऐ मीन् अधिकानां मरणं सम्भवति इति सर्वे जानन्ति ऐ मीन् सर्वे उक्तवन्तः अतः दृश्यते बेणि चिन्तयता चिन्तयतां प्रयाणिकानां ट्रेवलर्स् हृदयः तत्र अकम्पत् सर्वे अकम्पत् आँ, सर्वे कम्पनं कृतवन्तः आङ्ग्लजनः हा अग्रिमे भारतमहोदय पठति कश्चन योग्य अधुना पश्यतु सर्वे स्थिति का उपहास तेषाम् उपहासपूर्ववचनानि श्रुत्वा अपि भारतीयवेषधारी तत्र शांत तया तत्र एव तिष्ठवान् आसीत् परन्तु अनन्तरं सह एव तत्र किमपि तत्र दोषः परिहासं कृतवान् तदा, mm. आ, तदा mm. एव तस्मात् कारणात् एव शताधिकानां मरणं न अभविष्यत् मरणं mm. न, न अभवत् तेषां जीवनं ते, तस्य तस्य आधारेण एव तस्य चिन्तनम् एव तस्मात् जीवस्य mm. तेषां जीवस्य रक्षणकर् कर्त्रा इति रूपेण आगच्छति अत्र अतः सः तेषाम् उक्तवान् तत्र तत्र दोषः अस्ति अपायनिवारणार्थम् एतत् सर्वं मया कृतम् अपायः न भवेत् अतः एतत् सर्वं मया कृतं हा अस्तु अधुना अग्रे भारतमहोदय धन्यवादः भारतमहोदय कश्चन आङ्ग्लजन कश्चन आङ्ग्लजनः अपृच्छत् भवता एतत् कथं ज्ञान ज्ञा ज्ञातम् ना, आङ्ग्ल आङ्ग्लजनः अपृच्छत् भवान् एतत् कथं ज्ञातं ज्ञातुं शक्नोति इति ना, तत्र कथं चक्रस्य चक्रध्वनेः तत्र कोऽपि दोषः अस्ति एतत् भवान् कथम् अवगतवान् सः आर्दी वेसधारी अवदत् अहम् अहमस्मि वृत्या अभियन्ता hmm. सूक्ष्मतया शब्दस्य श्रवणात् hmm. मया अयमंसः अवगतः aham abiyantaha uh, hum abiyanta ah uh, uh, sukshmataya hum ashram mm -hmm. uh, shramana uh, shramanam shramanam ah uh, maya ah uh, aya mansha avagat hum hmm. small thing i can uh, listen and uh, रियलैज् ऐ केन् अवगतः इत्युक्ते रियलै योग्यं सः अभियन्ता आसीत् भारतीयवेषधारी कोऽपि सामान्यपुरुषः न आसीत् सः अभियन्ता अत्र पश्यन्तु पिता पितृ इति प्रातिपदिकम् अभियन्तृ अभियन्ता इति प्रथमा विभक्ति एकवचनान्तरूपम् इञ्जिनियर् हा सूक्ष्मतया शब्दस्य श्रवणात् मया अयम् अंशः अवगतः वेरि वेल फेमिलियर् वित् मशिनरी एण्ड् आल् हि वाज़् इञ्जिनियर् सो शब्दस्य श्रवणात् यत्र कुत्र दोषः अस्ति चेत् श्रवणात् एव अहं ज्ञातुं शक्नोमि इति हा अग्रिमं वाक्यमपि पठतु अनन्तरम् आगस्ट् सम्भाषण कोलाहले प्रचलयति प्रचलति सत्यपि सः सूक्ष्मः सूक्ष्मः अंशः जनानां सम्भाषण कोलाहले प्रचलयति वेरि स्माल् मैन्यूट् अंशः आम् आम् सूक्ष्मः अंशः अंशः, पश्यन्तु तत्र जनानां सम्भाषणकोलाहले इत्युक्ते सप्तमी अगेन् तत्र सप्तमी अस्ति सम्भाषण उपहासपूर्वक उपहासपूर्णसम्भाषणं तत्र प्रचलति परन्तु तदा अपि सूक्ष्मः इति प्रश्नार्थकवचनम् इत्युक्ते तदापि भवान् कथं सूक्ष्म श्रुतवान् हा अत्र सम्भाषणे तत् सम्भाषणे किम् आसीत् उपहासपूर्वकवचनानि तत्र दूषितवचनानि तत्र आसीत् परन्तु तदापि भवान् भवतः अवधानं सूक्ष्म भवतः अवधानं सूक्ष्म अंशप्रति एव कथम् इति प्रश्नः अधुना तस्य उत्तरं किमस्ति तत् अगोस्टु महोदय भवान् पठतु हा धन्यवाद भारतमहोदय धन्यवाद धन्यवाद यत्र पठतु यत्र यस्य यत्र यस्य विशेषपरिणतिः तत्रत्यः सूक्ष्मांशः अपि तेन परिणत परिणतमतिना अवश्यम् अवश्यमेव ज्ञायेत hmm. यत्र यस्य विशेष विशेषपरिणतिः विशेषज्ञानम् अहम् अभी अभियन्ता अस्मि तत्र यन्त्रे मम विशेषज्ञानम् यत्र यस्य विशेषपरिणतिः पश्यन्तु यदा कोऽपि सङ्गीतज्ञ अस्ति तत्र स्वराणाम् विषये तस्य अघाधज्ञानम् तदा कुत्रापि तत्र स्वरभेदः अस्ति वा स्वरभङ्गः अस्ति वा सम्यक् स्वरः श्रोतुम् न शक्नुमः स्वर सम्यक् प्रकारेण न तस्य वादनम् न भवति तदा सूक्ष्मतया अपि सः अवगन्तुं शक्नोति मम विशेषज्ञानं तन्त्रागारे तत्र तन्त्रे अस्ति यन्त्रे अस्ति ततः तत्रत्यः सूक्ष्मांशः अपि तेन परिणतमतिना तत्र परिण परिणतमतिना मती न तत्र तृतीया इत्युक्ते तत्र ट्रेण्ड् मैण्ड् अवश्यम् एव ज्ञायेत् इत्युक्ते सह अतीव बुद्धिमान अभियन्ता सूक्ष्म अंशः सूक्ष्म अंशम् अपि सह ज्ञातुम् शक्नोति तस्य ग्रहणं तेन कृतम् इति तत्र विशेषतया यतो हि भवन्तः सर्वे मां दूषितवचनानि ददा ददातु किमपि भवेत् किमपि वदन्तु परन्तु मम विशेष विशेषपरिणति यत्र तत्र मम परि परिणतमतिना अहं ज्ञातुं शक्नोमि मै ट्रीन् मैण्ड् इति अग्रिमं भवतः पठतु भवतः नाम एम, एम, विश्वेश्वरय्यः मिश्वे, इति अवदात् सः भारतीयवेषदाही सः आसीत् मोक्षगुण्डं विश्वेश्वरय्या महान अभिनन् अभि अभियन्ता अस्माकम् देशस्य महान् अभियन्ता उन्नम विश्वेश्वरय्या अग्रिमम् पठतु तत्पश्चात् वदामः सर्वे सर्वे तस्य सूक्ष्मावलोक सूक्ष्मावलोकनपरिणतिम् श्लाघमानाः तस्मै कृतज्ञताम् सर्वे सहा, तस्य सूक्ष्म अवलोकनपरिणतिं सूक्ष्म अवलोकं किन् आब्सर्वेशन् परिणतिं परिणतिं श्लाघमानाः श्लाघमानाः इत्युक्ते तत्र स्तुतिं कृतवन्तः श्लाघ इत्युक्ते टु प्रेज़् श्लाघमानाः इति शानच् प्रत्यान्तरूपं तस्मै चतुर्थी कृतज्ञतां समर्पितवन्तः सहार्दम् इट् इस् हृदयेन सह इत्युक्ते बाटम् आफ् हार्ट् इति वक्तुं शक्नुमः सहार्दम् कृतज्ञतां समर्पितवन्तः अग्रिमम् अग्रिमं वाक्यं पठतु चा। आ, उपहास तदर्थ क्षमा याचितवत उपहासवचना उतव आरंभे भारतीयवेशधारी ज्ञावा कोऽपि अशिक्षितः मनुष्यः अस्ति मूर्खः मनुष्यः अस्ति अज्ञानी अस्ति इति विच्छिद्य ते सर्वे आङ्ग्लजनाः उपहासपूर्वकवचनानि उक्तवन्तः तदर्थम् ते क्षमाम् अपि प्रार्थितवन्तः याचितवन्तः इति अस्ति सह मोक्षगुण्डम् विश्वेश्वरय्या तस्य कथा अधुना अत्र आगच्छन्तु सर्वे जयन्ति भगिनी वदतु मोक्षगुण्डं विश्वेश्वरय्य महोदयस्य विषये कथया विषयं विषये अहं वदामि मेनि विश्वेश्वरय्यविषये अहं न जानामि मेनि अधिकं न जानामि सः महान् इति जानामि किन्तु अधिकं न जानामि तत्र अभि अभियन्तादीनमपि वयं तत्र प्रचलति तत्र मोक्षगुण्डं विश्वेश्वरय्या तत्र सः महान् आसीत् आङ्ग्लप्रशासनकाले एव सः तस्य बुद्धि बुद्धि बुद्धिमान् मनुष्यः सः एवं सर्वम् अस्ति अस्तु भवती वदतु कथायाः विषये अपि वदतु वदति यदि अन्येन वयं दुःखम् अनुभूयामः चेत् वयं मौनेन तस्यां कृते तस्य कल्याणम् एव चिन्तयामः एतत् कार्येण तस्य मनसि लज्जा उत्पन्ना भवति ततः परं पुनः सः एतादृशं कार्यं न करोति लोककल्याणम् एव वयं चिन्तयामः अन्ये अन्येषु विषयेषु वयं दूरे दूरे दूरे भव दूरे भवामः इति चिन्तनं भवति तमिल् मध्ये एक तिरुकुरल इति एक श्लो एक श्लोकरूपेण एक श्लोकम् अस्ति बेनि तस्य अर्थमपि एतत् एव इन्ना सैदारे उर्तल् अवर्णाननयं चैद् विडल् विडल इति यदि अन्यः कोऽपि अस्माकं कृते किमपि कृत कृत करोति चेत् वयं तस्य कृते कल्याणमेव चिन्तयामः इति अर्थं सत्यं सत्यं सत्यं धन्यवा सत्यं अत्र पश्यन्तु किञ्चित् एकनिमिष एकनिमिषं वा केवलं तत्र स्क्रीन् शेर् करूमी अत्र मुक्तगुणं विश्वेश्वरय्याः विषये अस्ति भो एकवारं पश्यामः अनन्तरं स्थयामः तस्य महानता अत्र दृश्यते पश्यन्तु सर्वे दृश्यते स्क्रीन् दृश्यते दृश्यते सः आसीत् मोक्षगुण्डं विश्वेश्वरय्या अत्र आङ्ग्लभाषायां यत् अस्ति तत् सिविल् इञ्जिनियर् अड्मिनिस्ट्रेटर् सर्ड् 19th आफ् मैसूर् फ्रोम् नैन्टीन् 1920 टु 1980, एय्टीन् अधुना तत्र कर्नाटकराज्ये तस्य जन्मस्थानम् अधुना तत्र खडकवासला डेम् यत् अस्ति तत् नैन्टीन् ज़ीरो त्री हि वास् द फस्ट् वन् स्वचालितजलद्वार आविष्कारः कृष्णराजसागर तस्य निर्माणे कृष्णराजसागर डेम् तस्य निर्माणे सः प्रमुख अस्माकं नदी प्रचलति Uh, जलम् अपि आगच्छति कावेरी आम् आम् आम् आम् आम् आम, कार्यम् एतत् सर्वमस्ति मोक्षगुण्डं विश्वेश्वर्या तस्य विषयकी अद्यदिनस्य कथा अस्तु अन्यैः वदन्तु किं किमस्ति एकमेकं एकम वाक्यद्वयं वाक्यत्रयम् यः अस्ति लोकस्य बहिः वेषभूषणदृश्य अहं किमपि विषयम् अनुमानं न करणीयम् इति सत्यं बाह्य अवतार बाह्य अवतार दृष्ट्वा अनुमानं न भवेत् इति आम् सत्यं बहु सम्यक् कस्य अपि कस्य अपि अवमानं न कुर् न कुर् न करणीयं न करणीयम् अस्तु तत्र अवमानकारकवचनानि सदा सर्वदा कदापि न श्लाघनीया एव तत् वचनानि अवमानकारकाणि न भवेत इति तादृशवर्तनम् इत्युक्ते तत्र पश्यन्तु वाणी कीदृशी भवेत् तत् आह्लाददायी सुखदायी परुष्या वाचा तत् न भवेत एव योग्यं योग्यम् भारतमहोदय किमपि वक्तुम् इच्छति वा शब्दैः दर्ड् फोर् द एनियर् अभियन्ता अभियन्ता अभियन्ता महान अभियन्ता सूक्ष्मान् ग्रहण ग्रहणं करोति सत्यं सत्यं सूक्ष्म अंशस्य अपि तेन कृतं तत्र mm -hmm. तत्र दोषः अस्ति अन्यैः दोषः न श्रुतः परन्तु विश्वेश्वरय्यामहोदयेन mm -hmm. तत् श्रुतं तस्य ग्रहणं कृतं तदुपरि योजना अपि तत्र तेन कृता प्रसंगावधान इति प्रसंगस्य अवधानं सः कृतवान् तेन एव अन्येषां तत्र जीवितहानिः यद् भवितुम् अर्हति तत न अभवत् इति योग्यं योग्यम् अस्तु अधुना धन्यवादः अधुना समापयामः प्रार्थनया जयन्ति भगिनी शान्तिमन्तः वदति सर्वेषाम् शान्तेर्भवतु सर्वे ता सर्वेषाम् स्वस्थेर्भवतु सर्वेषाम् पूर्णम् भवतु सर्वेषाम् मङ्गलम् भवतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः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 उत्तमा प्रार्थना उत्तमा प्रार्थना धन्यवादा नैके धन्यवादाः सर्वेषां धन्यवादाः पुनर्मिलामः